श्रीहरये नमः अत एको न त्रिंशोऽध्यायः प्राचीनबर्हिर्रुवाचा भगवन्ते वचोऽस्माभिर्न सम्यक् अवगम्यते कवयस्तद्विजानन्ति न वयं कर्म पुरुषं पुरञ्जनं विद्याद्यनक्यात्मनः पुरं ये गत्वित्रिचतुष्पादं बहुपाधमपाधहं यो विज्ञाता हृतस्तस्य पुरुषस्य सखेश्वरः यन्न विज्ञायते पुम्भैर्नामभिर्वा क्रियागुणैः यथा जिगृषन् पुरुष कर्तस्न्येन प्रकृतेर्गुणान् नवद्वारं द्विहस्ताग्रे तत्रामनुतसाद्वितीं बुद्धिं तु प्रमाधां विद्यात्ममाहमिति यत्कृतं यमादिष्ठा यदेहेऽस्मिन् पुमान् भुङ्क्ते क्षभिर्गुणान् सहाय इन्द्रियगणाज्ञानं कर्म कर्मचयत्कृतं यत्कृतं सख्यस्तद्वृत्तयः प्राणपञ्चवृत्यर्यधोरगः बृहत् बलं मनोविद्यात् उभयेन्द्रियनायकं पञ्चाला पञ्चविषया पंचा यन्मद्येन वकम्पुरम् अक्षिणी नासिके कर्णो मुखं सि स्नगुताविति द्वे द्वे द्वारौ बहिर्याति यस्तत् इन्द्रियसंयुतः अक्षिणी नासिके हास्यमिति पञ्चपुरकृताः दक्षिणा दक्षिणकर्ण उत्तरा च उत्तर स्मृतः पश्चिमे इत्यधोद्वारौ घुतं सिस्नमिहोष्यते कद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते रूपं विभ्राजितं धाभ्यां विचष्टे चक्षुषेश्वरः नळिनीनाळिनी नासे गन्तः सौरभ उच्यते घ्रोणो भधुतो मुख्यास्यं विपणो वा रसविद्रसः आपणो व्यवहारोऽत्र चित्रमन्धो बहु धनं पितृहुर्दक्षिणकर्णवत्तरो देवहुस्मृतः प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसञ्जितं पितृयानं देवयानं श्रोद्रात् श्रुतधरा आसुरी मेढ्रम् अर्वाक्त्वा व्यवायो ग्रामीणां उपस्तो उपस्थो प्रोक्तो निरृतिर्गुत उच्यते वैसं नरकम् भायोर्लुब्धगोन्धौ तुमे शृणो हस्तपाधौ पुमान्ताभ्यां युक्तो याति करोति च अन्तःपुरं च हृदयं भिक्षुचिर्मन उच्यते तत्प्रमोहं प्रसाधं वा हर्षं प्राप्नोति तद्गुणैः यथा विक्रियते गुणाक्तो विकरोति वा तथा ततो धृष्टात्मा तद्भृत्तिरनुकार्यते देहो रथस्त्विन्द्रियस्याश्वसंवत्सरयो गतिः द्विकर्मचक्रस्त्रिगुणध्वज मनोरस्मिर्बुद्धिसुतो हृन्दिवन्द्वगूभरः पञ्चेन्द्रियार्थप्रक्षेपस् अप् तद्धातुव रूतकः आकुतिर्विक्रमो बाह्यो मृगदृष्णां प्रधावति एघातशेन्द्रियचमो पञ्चसुना विनोदके येनोपलक्षितः तस्या हानिः गन्धर्वा गन्धर्व्यो रात्र्यसंमृताः हरन्त्या यो परिक्रान्त्या षष्टयुत्र कालकन्या जरा साक्षात् लोकस्ताम् नाभिनन्दधी स्वसारं जगृहे मृत्युक्षयाय यवनेश्वरः आदयो व्याधयस्तस्य सैनिकाय यवनाश्चराः भूतो भूतोपसर्गासुरयः प्रज्वारो द्विविधो ज्वरः एवं बहुवितर्दुःखै दैवभूतात्मसम्भवैः क्लिश्यमानः सतं वर्षं देहे देहि तमोवृतः प्राणेन्द्रियमनो धर्मान् आत्मन्यस्य निर्गुणः सेते कामलवान् ध्यायन् माममाहमिति कर्म कृत यथात्मानम् अभिज्ञाय भगवन्तम् परम् गुरुम् पुरुषस्तु विषज्येत गुणेषु प्रकृते स्वद्र। गुणाभिमानी स तथा कर्माणि कुरुते वसः शुक्लं कृष्णम् लोहितं वा यथा कर्माभिजायते शुक्लात् प्रकाशभूयिष्ठान् लोकानाप्नोति कर्हि चित् दुःखो दर्घान् क्रियायासान् तमक् शोकात्कटान् क्वचित् क्वचित् पुमान् क्वचिच्च स्त्री क्वचिन्नो भयवन्दीः देवो मनुष्यस्तिर्यक्वा यथा कर्मगुणं भव क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहं चरन् विन्दति यद्धिष्टं दण्डमोदनमेव भ तथा कामाशयो जीव उच्चावचपथा भ्रमन् उपर्यधो वामत्ये वा, वा यातिधिष्टं प्रिया प्रियं दुःखेष्वेकतरेणो दीभूतात्महतुषो जीवस्वे सैच्चे प्रतिक्रिया यताहि पुरुषो भारं सिरसा गुर मुद्द तं स्कन्देन स आधत्ते तथा सर्वाः प्रतिक्रियाः नैकान्ततः प्रतीकारः कर्मणां कर्म केवलं द्वयं ह्य विद्योभश्रुतं स्वप्ने स्वप्न इवानघा अर्थे ह्य विद्यमानेऽपि संश्रुतिर्न निवर्तते मनसालिङ्गरूपेण स्वप्ने विचरतो यत् अतात्मानोऽर्थभूतस्य यतो नर्थपरम्परा संश्रुतिस्तद्व्यवच्छेदो भक्ति परमया गुरो वासुदेव भगवति भक्तियोगः समाहितः छद्रीसीनेन वैराग्यं ज्ञानं च जनश्यति सोचिरो देवराजर्षेषादश्युतगताश्रयः शुण्वतश्रद्धधानस्य निध्यता स्यात अधीयतः यत्र भागवता राजन् सा भगवद्गुणानुकथनश्रवणव्यग्रचेतसः तस्मिन्मखन्मुखरितामधुभिश्चरित्र पीयूषशेषरितः परितः श्रवन्ति ताये पिबन्त्यविदृशो नृपघाढकर्णैः तान्तः स्पृशन्त्यसनधृयसोकमोहाः एतैरुभतृतो नित्यम् जीवलोकस्वभावजैः न करोति हरेर्नूनं तथामृतनिधौ ऋतिं प्रजापतिः पतिः साक्षाद् भगवान् गिरिशो मनुः दक्षादयः प्रजाध्यक्षा नैष्टिकासनखाधयः मरीचिरद्यङ्गीरसौ पुलस्त्यपुलः क्रतुः भृगुर्वसिष्ठते मदन्ता ब्रह्मवादिनः अद्यापि वाचस्पतयस्तब विद्यासमाधिभिः पश्यन्तोऽपि नः पश्यन्ति पश्यन्तं परमेश्वरं सब्धब्रह्मणि दुष्पारे चरन्त उरुविस्तरे मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विधुः परं यथायमनुगृह्णाति भगवानात्मभावितः स जहाधिमतिं लोगे वेदे च परिनिष्ठिताम् तस्मात् कर्मसु बर्हिष्मन् अज्ञानात् अर्थकाशिषु मार्तदृष्टिं कृता स्तोस्पर्शिस्वस्पृष्टवस्तुषुः स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः आहुर्दुं रतियोभेतं सकर्मकमधद्विधः आस्तीव्यधर्वै प्राघक्रैर्घा शितिमण्डलं तब्धु <Sess> -yaya ो बृहद्वधान्मानि कर्मणा वैषि यत्परं तब्धो बृहद्वधान्मानि कर्मणा वैषि यत्परं तत्कर्म हर्षितोषं यत् सा स्वयं प्रकृतिरीश्वरः तत्पादमूलं शरणं यतक्षेमो नृणामिह स वै प्रियतमश्च आत्मा यथो न भयमण्वपि इति वेत स वै विद्वान्यो विद्वांस गुरोर्हरिः नारद उवाच प्रसन्न एवं कि सञ्चिन्तो भवतः पुरुषर्षभ अत्र मे वदतो गुह्यं निशामयः सुमनसां शरेण मिथित्वा रक्तं षडङ्ग्रिगणसामसो लब्धकर्णम् शूतृपो विगणय्ययान्तं पृष्ठे मृगं मृगय अस्यार्थः सुमनः समधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवक्षोत्रतमम् काम्यकर्म विभागजं काम विभाकजं कामसुकवलं <laughs> जैह्वयोपस्थ्याधिविचिन्वन्तं मिधुनीभूय तथभिनिवेशितमनसम् षडङ्ग्रिगणसामघीतवत् अधिमनोहरवनिधानि जनालापेषु अधितरामतिप्रोलभितकरणमग्रे भ्रूकयूतवतात्मनः आयुर्हरतो होरात्रान् तान् काललवविशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठतये परोक्षम् अनुप्रवृतो लुप्तः कृन्दान् दोन्ध शरणेयमिह परा विद्यति तमिममात्मनम् अहो राजन् सत्वं द्रष्टुमर्हसीते सत्त्वम् विचक्ष्य चित्तं नियच्चकृति कर्णधुनीं च चित्ते जह्यङ्गनाश्रमम् असत्तमयूदघातम् प्रणीही हंस शरणं विरमक्रमेण राजो वाच श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषधा नैदजानान्त्युभाध्याय किं न भृयुर्विधुर्यधी संसयोऽत्र धुमे विप्रसञ्चिन्नस्तत्रुतो महान् ऋषयोऽपि मुह्यन्ति यत्र तयः कर्माणि आरभते येन पुमानि कविहायतम् अमुत्राण्येन देहेन ज्योष्ठानि स इति वेदवितां वाधः श्रूयते तत्र तत्र कर्म यत् प्रोक्तं परोक्षं न प्रकाशते येनैवारभते कर्म तेनैवामुत्र तत्पुमान् भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयं सयानमिमम् उत्कृज्य स्वसन्तं पुरुषो यतां कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा ममैते मनसा यत्य असावहमिति ब्रुवन् गृह्णीयात्तत्मपुमान्द्राद्धं कर्म येन पुनर्भवः यथानुमीयते चित्तमुभयैन्द्रियेहि तैः एवं प्राग्देहजं कर्मलक्षते लक्ष्यते चित्तवृद्धिभे नानुभूतं क्वचानेन ना देहेन अदृष्टम् अश्रुतं कदाचिदुपलभ्येत यत्रोभं यातृगात्मनि ते नास्य दातृशं राजन् लिङ्गिनो देहसम्भवम् श्रद्धस्वनुभूता अर्थो न मनस्पृष्टुमर्हते मन एव मनुष्यश्च पूर्वरूपाणि संसते भविष्यतस्य भद्रम् ते तथैव न भविष्यतः अदृष्टम् अश्रुतं शात्रः क्वचिन्मनसि दृश्यते यथा तानुमन्तव्यं देशकालक्रियाश्रयम् ग्रामानुरो सर्वे ग्रामानुरोधेन मनसीन्द्रियगोचराः आयान्ति वर्गसो यान्ति सर्वे समनसो जनाः सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर् तमश्चन्द्रमसि भेदम् उभर्यावभासते नाहं ममेति भावोऽयं पुरुषे व्यवधीयते यावत् बुद्धिमनोक्षार्थगुणव्यूहोह्यनादिमान् सुप्तिमूर्च्छोपतापेषु प्राणायन विघाततः नेखतेहमिति ज्ञानं मृत्युप्रज्वारयोरपि गर्भे एकादशविधं तथा लिङ्गं दृश्यते यो चन्द्रमसो यथा अर्थेह्य विद्यमानेऽपि संश्रुतिर्न निवर्तते ध्यायतो विषयानस्य स्वप्ने नर्थागमो यथा एवं पञ्चवितं लिङ्गं त्रिभृत्सोटसविस्तृतं एष चेतनया युक्तो जीवयित्यभिधीयते अनेन पुरुषो देहानुपाधत्ते विमुञ्चते हर्षं सोकं भयं दुःखं सुखं च अनेन विन्दते यथा तृणझलु केयं नापयात्यपयाति च न प्राग्देहाभिमतिम् जनः यावधन्यं न विन्धेत व्यवधानेन कर्मणां मन एव भूतानां भवभावनं यदाक्षैश्चरितान् ध्यायन् कर्माणि आचिनुते सकृत् सति कर्मणि अविद्यायां बन्धः अनात्मनः अतस्तद बाधार्तं भज सर्वात्मना हरिं पश्यं स्तदात्मकं विश्वं स्थित्युत्पत्त्यव्ययायतः मैत्रेय भागवत मुख्यो भगवान्नारतो हंसयोर्गतिं प्रतर्ष्य ह्यमुम् आमन्त्र्य सिद्धलोकं ततो गमत् प्राचीनबर्हि राजर्षि प्रजा रक्षणे आदिश्य पुत्रा न गमत् तपसे कपिलाश्रमम् तत्रैघाक्रमणा भीरो गोविन्त चरणाम्बुजम् भक्त्या तत् तत्सां व्यधामघाद् एतत्तध्यात्मपारोक्षं गीतं देवर्षिणानघा यस्रावयेध्यशृणुयात्स लिङ्गेन देवर्षिवर्यमुकनिश्रुतम् आत्मशौचम् यः शीर्त्यमानम् अधिगच्छति पारमेष्ठ्यम् नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः अध्यात्मपारोक्षमिदं मयाधिगतमद्भुतम् एवं स्त्रियाश्रम पुंसश्चिन्न अमुत्र च संशयः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते वितुरमैत्रेयसंवादे प्राचीनबर्ह्यर्नारतसंवातो नाम एकोनविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमघराजिकी जय